श्रीगणेशाय नमः श्रीगौरीशङ्कराभ्याम् नमः अथ श्रीशिवमहापुराणे विद्नेश्वरसंहितायाम् सप्तादशोऽध्याय प्रणवपञ्चाक्षरमन्त्रमात्म्यम् ऋषयवोचो प्रणवस्य च माहात्म्यम् षड्लिङ्गस्य महामुने शिवभक्तस्य पूजाम् च क्रमशो श्रोतवाच तबोधनैर्भवद्भिश्च सम्यक् प्रश्न स्वयम् कृत अस्योत्तरम् महादेव जानाति स्म न अप्यापरः तथापि शिवस्य कृपयैव हि शिवस्माकं च युष्माकम् रक्षाम् गृह्णातु भूरिशः यो हि प्रकृतिजातस्य संसारस्य महोदधे नवम् नौकान्तरम् इति प्रणवम् वै विदुर्बुध प्रप्रपञ्चो न नास्तीति युष्माकम् प्रणवम् विदुः प्रकर्षेण न यद्यस्मान् वः प्रणवम् विदुः स्वमन्त्रजापकानाम् च पूजकानाञ्च योगिनां सर्वकर्मक्षयं कृत्वा दिव्यज्ञानम् तु नूतनम् तमेव माया रहितम् नूतनम् परिचक्ष्यते प्रकर्षेण महात्मानम् नवम् शुद्धस्वरूपकम् नूतनम् वै करोतीति प्रणवम् तम् विदुर्बुधा प्रणवम् द्विविधम् प्रोक्तम् सूक्ष्मस्थूल विभेदतः सूक्ष्मम् एकाक्षरम् विद्यात् स्थूलम् पञ्चाक्षरम् विधु सूक्ष्मम् अव्यक्तपञ्चार्णम् सुव्यक्तार्णम् तथेतर जीवन्मुक्तस्य सूक्ष्मम् हि सर्वसारम् हि तस्य हि मन्त्रेणाथानुसन्धानम् स्वदेहविलयावधि स्वदेहे गलिते पूर्णम् शिवम् प्राप्नोति निश्चयः केवलम् मन्त्रदापोतु योगम् प्राप्नोति निश्चयः षट्त्रिंशत् कोटिजापि तु निश्चयम् योगमाप्नुयात् सूक्ष्मम् च द्विविधम् ज्ञेयम् ह्रस्वदीर्घ विभेदतः अकारश्च उकारश्च मकारश्च ततः परम् बिन्दूनादयुतं तर्हि शब्द काले कलान्वितम् दीर्घ प्रणवमेवम् हि योगिनामेव हृद्गतम् मकारम् तन्त्रितत्त्वम् हि ह्रस्व प्रणव उच्चते, शिव शक्ति तयोरैक्य मकारम् तु त्रिकात्मकम् ह्रस्वमेवम् हिजाप्यम् च सर्वपापक्षयषिणाम् भूवायुकणकर्णोद्यो शब्दाद्याच्च तथा दश आशान्वये दश पुनः प्रवृत्ता ह्रस्वमेव प्रवृत्तानाम् निवृत्तानाम् तु दीर्घकम् व्याहृत्यादौ च मन्त्रादौ वेदादोच शब्दकलायुतम् वेदादौ च प्रयोज्यम् स्यात् वन्दने सन्ध्ययोरपि नवकोटिजपान् जप्त्वा संशुद्ध पुरुषो भवेत् पुनश्च नवकोट्या तु पृथ्वीजयमाप्नुयात् पुनश्च नवकोट्या तु ह्यपां जयम् अवाप्नुयात् पुनश्च नवकोट्या तु तेजसां जय माप्नुयात् पुनश्च नवकोट्या तु वायोर्जवं जयम् अवाप्नुयात् आकाश नवकोटिजपेन वै गन्धादीनां क्रमेणैव नवकोटिजपेन वै अहङ्कार्यस्य च पुनः नव कोटिजपेन वै सहस्रमन्त्रजप्तेन नित्यशुद्धो भवेत् पुमान् ततः परम् त्यर्थम् जपो भवति हि द्विज एवम् अष्टोत्तरशतकोटिजप्तेन वै पुनः प्रणवेन प्रबुद्धतु शुद्धयोगम् प्राप्नुयात् शुद्धयोगेन संयुक्तो जीवन्मुक्तो न संशय हे सदा जपन् सदा ध्यायन् शिवम् प्राणवरूपिणम् समाधिस्थो महायोगी शिवैव न संशय हे ऋषि देवतादि न्यस्य देहे पुनर्जपेत् प्रणवम् मातृकायुक्तम् देहे न्यस्य ऋचिर्भवेत् दश सर्वं न्यास बलं लभेत् प्रवृत्तानां च मिश्राणां स्थूले प्रणवमिष्यते क्रिया तु पूजर्युक्ता त्रिविधाय शिवयोगिनः धनादि विभवैश्चैव क्रियया पूजया युक्ते। क्रियायोगीति कथ्यते पूजा पूजाुक्त चित्येन्द्रिय जयान्व परद्रोहादीरिता तपो योगी कथ्य से एक सदाशुद्ध सर्वकाजि सदा जर पर शाह जप योगी तम विदु उपचार षोड़शी पूजया शिव योगीनालोक्याण शुद्धो मुक्तिं लभे नरः जपयोग मथो वक्षे गदतः शृणुथ द्विजा तपः कर्तूर्जप प्रोक्तो यजपन् परिमाजते शिवनाभ नमः पूर्वं चतुर्थ्यां पञ्चतत्त्वकं स्थूल प्रणवरूपं हि शिव पञ्चाक्षरं द्विजा पञ्चाक्षरे जपेनैव सर्वसिद्धिम् लभे नर प्रणवेनादिसंयुक्तम् सदा जपेत् गुरुपदेशं सङ्गम्य सुखवासे सुभूतले पूर्वपक्षे समारभ्य कृष्णभूतावधिया माघम् भाद्रम् वियिष्ठन्तु सर्वकालोत्तमोत्तमम् एकवारं विताशेतु ग्यतो नियतेन्द्रियः स्वस्य राज्ञे पितॄणाञ्च नित्यम् शुश्रूषणम् चरेत् स्वस्र जपमात्रेण भवेत् शुद्धोऽन्यथारुणि पञ्चाक्षरम् पञ्चलक्षम् जपेच्छीवम् अनुस्मरन् पद्मासनस्थम् शिवरम् गङ्गाचन्द्र कलान्वितम् वा मोरुस्थितशक्त्या च मृगङ्कधरम् देवम् वरदाभयपाणिकम् सदा अनुग्रहकर्तारम् सदाशिवम् अनुस्मरन् सम्पूज्य मनसा पूर्वम् हृदि वा सूर्यमण्डले जपे पञ्चाक्षरीम् विद्याम् प्राङ्मुख शुद्ध कर्म कृत् प्रातः कृष्ण च नियतः मानस शुद्धमानस पञ्चाक्षरस्य मन्त्रस्य सहस्रम् द्वादशम् जपेत् वरयेत् च सपत्नीकान् शैवान् वै ब्राह्मणोत्तमान् एकम् गुरुवरम् शिष्यम् वरयेत् मूर्तेकं, ईशानम् चाथ पुरुषम् अघोरम् वामेव च सद्योदातम् च पञ्चैव शिवभक्तान् द्वियोत्तमान् पूजा द्रव्याणि सम्पाद्य शिवपूजाम् समारभेत् शिवपूजाम् च विधिवेत् कृत्वा होमम् समारभेत् मुखान्तम् च सुसूत्रेण कृत्वा होमम् समाचरेत् दशैकम् वा शतैकम् वा सहस्रैकम् तथापि वा कापिलेन घृतेनैव जूयात् स्वयमेव हि कारयेत् शिवभक्तेर्वापि अष्टोत्तरशतम् बुधे होमान्ते दक्षिणादि या गुरोर्गो मिथुनम् स्वधा ईशानादि स्वरूपान्तान् गुरुम् साम्बम् विभाव्यते तेषां सद्य स्नानफलम् लभे दशाङ्गमन्नम् तेषाम् वै दद्याद्वये भक्तिपूर्वकम् पराबुद्ध्या गुरुपत्नी मीशानादिक्रमेण तु परमान्नेन सम्पूज्य यथा विभव विस्तरम् रुद्राक्षे वस्त्रपूर्णम् पूर्वम् च वटकपूपकर्युतम् बलिदानम् भूरि भोजनमाचरेत् ततः सम्प्रार्थेशं जपं तावत् समापयेत् पुनश्चरणमेवं तु कृत्वा मन्त्री भवेन्नरे पुनश्च पञ्चलक्षेण सर्वपापक्षयो भवेत् असलादि समारभ्य सत्यलोकावधिक्रमात् पञ्चलक्षजपात् तत्तत् लोकैश्वर्यं वायात् मध्ये मृतश्चेद्भून्ते भौमो तज्जातको भवेत् पुनश्च पञ्चलक्षेण ब्रह्म सामीप्यमाप्नुयात् पुनश्च पञ्चलक्ष्येण सरूप्यैश्वर्यमाप्नुयात् आहत्य शतलक्ष्येण साक्षात् ब्रह्मतमो भवेत् कार्य ब्रह्मणैवं हि सायुज्यं प्रतिपद्य यथेष्टं भोगमाप्नोति तद्ब्रह्म प्रलयावधि पुनः कल्पान्तरे वृत्ते ब्रह्म पुत्र सजायते पुनश्च तपसि दीप्त क्रमान्मुक्तो भविष्यति पृथ्व्यादिकार्यभूतेभ्यो लोका वै निर्मिता क्रमात् पातालाभि च सत्यान्तम् ब्रह्म वै विष्णो लोकाश्चे क्षम लोके कार्यविष्णु वैकुण्ठे वरपत्तने कार्यलक्ष्म्यां महा भोगी रक्षां कृत्वा धिष्ठति तद्दुर्भगा च युज्यन्तां लोकाश्चा विंशति स्थिता शुचो लोके तु कैलासे रुद्रो वै भूतरुत्थिते षडुत्तराश्च पञ्चाशत् हिंसान्तागा अहिंसाय लोकमार्थाय ज्ञानकैलासके पुरे कलेश्वर शिरोभावं सर्वं कृत्वा धितिष्ठति तदन्ते कालचक्रं हि कालातीत परं शिवेनाधिष्ठितक्रेश्वर उभये माहिजं धर्ममार्थाय सर्वान् गाले न पयुञ्जति असत्यै च शुचिश्चैव असत्यादि च दुष्पादे सर्वान् च कामरूपधृ दुस्तंगो लक्ष्मी दुष्सङ्गो वेदबाह्य ध्वनिसदा क्रोधसङ्ग कृष्णवर्णो महामही च वेशवान् तावन्महेश्वरप्रोत् निरोधातावदेव हि तदर्वाय कर्म भोगो हि तदूर्धं ज्ञानभोगकम् ज्ञानमाया तदूर्धकम् महालक्ष्मी कर्म याति मायेति कथ्यते महालक्ष्मीर्नभोगी वै याति मायेति कथ्यते सदूर्धं तदर्वा स्वरम विधु सदर्वाक् चेतिधनम च दूर्धम नोधनम सदर्वाशंधो ही सदुर्धम नी बंधन तदर्वा पर काम्यकर्मासारिण निष्काम कर्म भोगस्तु तुर्धम परकीर्ति सदर्वावर्तं से परायणा तदुर्ध्वम् हि व्रयन्त्येव निष्कामालिङ्गपूजका तदर्वाक् परिवर्तन्ते शिवान्यः सुरपूजका शिवैक निर्ताय च तदुर्ध्वं सम्प्रयान्ति ते तदर्वाक् जीवकोटि स्यात् तदुर्ध्वं परकोटिका संसारिक तदर्वाक् च मुक्ता खालु तदुर्धः तदर्वा परिवर्तन्ते प्राकृत द्रव्यपूजकः तदुर्धम् हि व्रजन्ते ते पौरुष द्रव्यपूजकलिङ्गम् तु शिवलिङ्गम् तदूर्धकम् तदर्वागावृतं लिङ्गम् तदुर्ध्वम् हि निराकृति तदर्वा कल्पितं तदूर्ध्वं वै न कल्पितं तदर्वाग् बाह्यलिङ्गं च अन्तरङ्गं तदूर्ध्वकं तदर्वा शक्तिलोका हि शतं वै द्वादशाधिकं तदर्वाग् हि नादुरूपं तदुत्तरं तदर्वा तदूर्ध्वं ज्ञानलोककः नमस्कार तदूर्ध्वं हि मदाहङ्कारनाशनः जनम् तस्मात् तिरोधानम् प्रत्यायातिन नायतः ज्ञानशब्दार्थ एवम् हि तिरोधान तदर्वा परिवर्तन्ते ह्याधिभौतिकपूजकः आध्यात्मिका चका एव तद्दुर्ध्वम् तम् प्रयाति वै तावद्वैवेदि भागम् तन् महालोकात्मिंगकेकृत्यादेतिषत एवतादेय सर्व लौकिक वेदिक महिषारूढ़ कालचक्र तर सत्याधर्मयुक्ता ये शिव पूजा पराश ये सदुर्धम वृज भोध ब्रह्मचर्य स्वरूपधू सत्यादिपादयुक्त शिव लोकाग्रतस्थित शमाश्रृङ्गमश्रोत्रौ वेदध्वनिविभूषित आतिक्यचक्षुर्निश्वास निश्वास गुरुबुद्धि मनावृष क्रियादिवृषभाया कारणादिषु सर्वदा तं धर्मम् कालातीतोऽधिष्ठति ब्रह्म विष्णुमहेशानां स्वयुर्जिनमुच्यते न दिनं रात्रिः कारणं ब्रह्मणस्तभ्यः तु भूतेभ्यः स दूर्धम् निर्मिता सदः सूक्ष्मगन्धस्वरूपा पुनः कारणविष्णोर्वै स्थितालोकाचतुर्दश पुनः कारण रुद्रस्य लोकाष्टाविंशकामता पुनश्च कारणेशस्य षट् पञ्चाशत् दुर्दर्गात् तदपरं ब्रह्मचर्य लोकाख्यं शिवसम्मतं तत्रैव ज्ञानकैलासे पञ्चावर्णसंयुते पञ्चमण्डलसंयुक्तम् पञ्च ब्रह्म कलान्वितम् आदिशक्ति समायुक्तः <coughs> आदिलिङ्गम् तु तत्र वै शिवालयमिदम् शिवस्य परमात्मनः परशक्त्या समायुक्तः तत्रैव परमेश्वरः सृष्टि स्थिति च संहार तिरुभावोऽप्यनुग्रह तच्चिदानन्द विग्रह ज्ञान धर्म सदा तस्य सन्दर्शनं साध्यं कर्म ध्यानादिभिष्क्रमात् नित्यादि शिवकर्म मतिर्भवेत् क्रियादि शिवकर्मभ्य शिवज्ञानम् प्रसाधयेत् तद्दर्शनगता सर्वे मुक्ता एव न संशयः मुक्तिरात्मस्वरूपेण स्वात्माना ममेव हि क्रियातपोजपध्यान ध्यानधर्मेषु सुस्थितः शिवस्य दर्शनम् लब्ध्वा स्वात्माना मत्वमेव हि यथा स्वकिरण कृपा विचक्षण शम्भु अज्ञानम् अपनेष्यति अज्ञानविनिवृत्तौ तु प्रवर्तते शिवज्ञानात् स्वरूपम् आत्मारामत्वमेष्यति आत्मारामत्व संसिद्धौ कृतकृत्यो भवेन्नर पुनश्च शतलक्ष्येण ब्रह्मण पदमाप्नुयात् पुनश्च शतलक्षेण विष्णुपादम् अवाप्नुयात् पुनश्च शतलक्ष्येण रुद्रस्य पदमाप्नुयात् पुनश्च शतलक्ष्येण ऐश्वर्यम् पदमाप्नुयात् पुनश्चैवं विधेनैव जपेन सुसमाहित शिवलोकादिभूतं हि कालचक्रम् अवाप्नुयात् कालचक्रम् पञ्चचक्रम् एकैकेन क्रमोत्तरे सृष्टिमोहो ब्रह्मचक्रम् भोगमोह तु वैष्णवम् कोपमोहौ रन्ध्रचक्रम् भ्रमणं चैश्वरं विदुः शिवचक्रम् ज्ञानमोहौ पञ्चचक्रम् विदुर्बुध पुनश्च दशकोट्याहि कारणब्रह्मण पदम् पुनश्च दशकोट्याही तत्पदैश्वर्यमाप्नुयात् एवं क्रमेण विष्णुवादि पदम् लब्ध्वा महोजसे, क्रमेण तत्पदैश्वर्यम् लब्ध्वा चैव महात्मनः शतकोटिमनुम् जप्त्वा पञ्चोत्तरमतन्द्रितः शिवलोकम् अवाप्नोति पञ्चमाय वर्णाद् बहिः राजसम् मण्डपम् तत्र नन्दि संस्थानमुत्तमम् तपोरूप सत्रैव परिदृश्यते सद्योदात्तस्य तत् स्थानम् पञ्चमावर्णम् परम् वामदेवस्य च स्थानम् चतुर्थाय वर्णम् पुनः अघोर निलयम् पश्चात् तृतीया वर्णम् परम् पुरुषस्यैव साम्बस्य द्वितीयवर्णम् शुभम् ईशानस्य परस्यैव प्रथमाय वर्णम् ततः ध्यानधर्मस्य च स्थानम् पञ्चमम् मण्डपम् ततः बलेनाथस्य संस्थानम् तत्र पूर्णामृतप्रभप्रदम् चतुर्थम् मण्डपम् पश्चात् चन्द्रशेखरमूर्ति महत् सोमस्कन्दस्य च स्थानम् तृतीयम् परम् द्वितीयं मण्डपम् नृत्यम् मण्डपम् प्राहुरास्तिकः प्रथमं रमाया स्थानं तत्रैव शोभनं ततः परं गर्भगृहम् लिङ्गस्थानं परं शुभम् नन्दीस्थान संस्थानपश्चान् न विदुषिव वैभवम् नन्दीश्वरो बहि तिष्ठन् पञ्चाक्षरमुपासते एवं गुरुक्रमाद् वेद्यं शिवेनैवानुभावितम् शिवस्य कृपया साक्षात् शिवलोकस्य वैभवम् विज्ञातुम् शक्यते सर्वै नान्यथेत्याहुरास्तिका एवं क्रमेण मुक्ता स्युः ब्रह्मणा वै जितेन्द्रिय अन्येषां च क्रमं वक्षे विदते जाप्यं वै ब्रह्मणानाम् नमोन्तकम् पञ्चाक्षरम् पञ्चलक्ष्यम् आयुष्यम् प्र जपेद् विधिः स्थित्वायननार्थम् तु पञ्चलक्ष्यम् जपेत् पुनः मन्त्रेण पुरुषो भूत्वा कर्मान्मुक्तो भवेद्बुधः क्षत्रिय पञ्चलक्षेण क्षत्रत्वम् अपनेष्यति पुनश्च पञ्चलक्षेण क्षत्रियो ब्राह्मणो भवेत् मन्त्रसिद्धिजपाचैव क्रमान्मुक्तो भवेन्न वश्यस्तु पञ्चलक्ष्येण वैश्यत्वम् अपनेच्छति पुनश्च पञ्चलक्ष्येण मन्त्रक्षत्रिय उच्यते पुनश्च पञ्चलक्षेण क्षत्रम् अपनेच्छति पुनश्च पञ्चलक्ष्येण मन्त्रब्राह्मण उच्यते क्षुद्रस्यैव न मोन्तेन पञ्चविंशतिलक्षतः मन्त्रविप्रत्वमापद्य पश्चात् शुद्धो भवेद्विसनरो वाथ ब्राह्मणो वा नैव वा न मोन्तं वा नमः पूर्वम् आतुर सर्वदा जेत् ततस्त्रीणाम् तथैवोह वरोनिर्दशय क्रमात् साधक पञ्चलक्षान्ते शिवप्रीत्य समेव हि महाभिषेक नैवेद्यम् कृत्वा भक्ता च पूजयेत् पूजय शिवभक्तस्य शिवप्रीत तरो भवेत् शिवस्य शिवभक्तस्य वेदो नाति शिवो हितः शिवस्वरूप मन्त्रस्य धारणात् शिव एव शिवे तत् परमो भवेत् शिवभक्ता क्रिया सर्वा वेद सर्व क्रियां विदुः यावद् यावत् शिवम् मन्त्रम् येन जप्तं भवेत् क्रमात् तावद् वै शिवसान्निध्यम् तस्मिन् देहेन संशय हे देवे लिङ्गम् भवेद् रूपम् शिवभक्त क्रिया तथा यावन्मन्त्रम् जपेत् देव्या तावत् सान्निध्यमर्तिः शिवम् सम्पूजये धीम स्वयं वै शब्दरूप भक् स्वयम् चैव शिव भूत्वा पराम् शक्तिम् प्रपूजयेत् शक्तिम् वीरम् च लिङ्गम् च य लेख्य माय यजेत् शिवलिङ्गम् शिवम् मत्वा स्वात्मानम् शक्तिरूपकम् शक्ते लिङ्गम् च देवीम् च मत्वा शिवरूपकम् शिवलिङ्गम् नादरूपम् बिन्दूरूपम् तु शक्तिकम् उपप्रधानभावेन अन्योन्यासक्तिलिङ्गकम् पूजये च शिवम् शक्ति स शिवो शिवभक्तान् शिवमन्त्र रूपकान् षोडशी उपचारै च पूजयेत् इष्टमाप्नुयात् य शुश्रूषणाद्यै च शिवभक्तः स लिङ्गिनः आनन्दम् जनयेद् विद्वान् शिवप्रीतः तरो भवेत् शिवभक्तान् स पत्नीकान् पत्न्या स दैवतः पूजयेद् धने देहे च मन्त्रे भावनायामवञ्चकः शिवशक्ति स्वरूपेण न पुनर्जायते भुवि न भेदधो ब्रह्मभागम् अकच्छम् लिंगं मुखम् लिङ्गम् इति प्रोक्तम् शिवभक्तः शरीरकम् मृतान् दाहादियुक्तान् वा दाहादिरयितान् पूजयेदादि पितरम् शिवमेव हि पूजाम् कृत्वा दिमातुश्च शिवभक्ताञ्च पूजयेत् पितृलोकम् समासाद्य क्रमान्मुक्तो भवेन्मृत क्रियायुक्त दशभ्यश्च तपोयुक्तो विशिष्यते तपोयुक्त शतेभ्यश्च जपयुक्तो विशिष्यते जपयुक्त सहस्रेभ्यः शिवज्ञानेषु लक्षेषु ध्यानयुक्तो विचिष्यते ध्यानयुक्तेषु कोटिभ्य समाधिस्थो विचिष्यते उत्तरोत्तरवैशिष्ट्यात् पूजायाम् उत्तरोत्तरम् फलम् वैशिष्ट्यरूपम् च दुर्विज्ञेयम् मनेषिभिः तस्माद् शिवभक्तस्य महि मानम् वेत्तिको नर शिवचक्रो पूजनम् च शिवभक्तस्य पूजनम् कुरुते यो नरो स शिव शिवमेधते यैमम् पठति ध्यायम् अथ वै द्वेदसम्मतम् शिवज्ञाने भवेद्विप्र शिवेन स मोदते श्रावये विजयशज्ञोमनीश्वरः शिवप्रसाद सिद्धे च शिवस्य कृपया बुध इति श्री शिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां प्रणवपञ्चाक्षरमन्त्रमात्मवर्णनं नाम सप्तदशोऽध्यायः श्रीगौरी शङ्करार्पणमस्तु